चमकखनम् अनुवाकं नयन् अग्निश्च चाग्निरग्निश्च मे मे चाग्निरग्निश्च मे च मे मे च च च मे कर्म कर्म मे च च च कर्मश्च च मे कर्मश्च कर्मश्च च कर्म कर्मश्च मे च कर्म कर्मश्च मे च मे च च मेर्को मे च च च च च मेर्कः मेर्को ओर्को मेर्कश्च अर्कश्च चार्को च मे मे चार्कोऽर्कश्च मे च मे मे च च च मे सूर्य सूर्यो मे च च च च मे सूर्यः मे सूर्यस्तूर्यो मे मे सूर्यश्च च सूर्यो मे मे सूर्यश्च सूर्यश्च च सूर्यस्तूर्यश्च मे मे च सूर्यसूर्यश्च मे च मे मे च च मे प्राणप्राणो मे च च मे प्राणः मे प्राणश्च च मे प्राणश्च प्राणश्च च प्राणप्राणश्च मे मे प्राण इदि प्र नः मे मे मेश्वमेधोश्वमेधो मे च अश्वमेधश्च चाश्वमेधोश्वमेधश्च मे मे चाश्वमेधोश्वमेधश्च मे अश्वमेधित्यश्व मेधः च मे मे च च मे पृथिवी पृथिवी मे च च मे पृथिवी मे प्रथेवि प्रथेवि मे मे प्रथे चाचा प्रथे मे मे प्रथिवी चा प्रथे चाचा प्रथे प्रथेवि मे मे च प्रथेवि प्रथेवि मे च मे मे चाचा मे देदे देदेर् मे चाचा मे दे मे दि दिर दि देर् मे मे दिदिश्च चा दि धर्मर् मे मे दिदिश्च अदितिश्च चा दि दिरदितिश्च मे मे च दिदिर दितिश्च मे चमे मे च चमे दे मे दे देर् दे देर् मे मे दे च दे देर् मे मे दे दिश्च दे च दे देर् दे मे मे च दे देर् मे च मे मे च मे द्याौर् द्याौर् च चमे द्या मे द्या चद्यौर्मे मे द्यौश्च द्यौश्च च द्यौर्दौश्च मे मे च द्यौर् द्यौश्च मे च मे मे सक्वरी रङ्गुलयः सक्वरी रङ्गुलयोङ्गुलय शक्वरी सक्वरि दिशो दिसोङ्गुलय शक्वरी सक्वरी रङ्गुलयो दिशः अङ्गुलयो दिशो दिसोङ्गुलयोङ्गुलयो दिशश्च च दिष्योऽलयोऽङ्गुलयो दिशश्च दिशश्च च दिश्योदिशश्च मे मे च मे यज्ञेन यज्ञेन मे मे यज्ञेन कल्पन्दां कल्पन्दां यज्ञेन मे यज्ञेन कल्पन्तां यज्ञेन कल्पन्दां कल्पन्दा यज्ञेन यज्ञेन कल्पन्दा मृगृ कल्पन्दा यज्ञेन यज्ञेन कल्पन्दा मृग कल्पन्दा मृगृ कल्पन्दां कल्पन्दा मृच्छ चर्क कल्पन्दां कल्पन्दां मृच वृक्ष चर्गृ च मे मे चर्गृच मे च मे मे सम मे सम सम मे मे सम च च सम मे मे सम च सम च च च मे च मे मे च च मे स्तोम स्तोमो Me sht longo c Five m女, me sht longo c h like, ch ne maffchter No eat shtulo c h like ce, ma ch Violin me ornament No eat shto my To eat shto my to eat shto my मे यजोर्यजोर् मे मे यजोश्च च यजोर्मे मे यजोश्च यजोश्च यजोर्यजोश्च मे मे च यजोश्च मे च मे मे दीक्षा दीक्षा मे च दीक्षा मे दीक्षा दीक्षा मे मे दीक्षा च च दीक्षा मे मे दीक्षा च दीक्षा च च दीक्षा दीक्षा च मे मे च दीक्षा दीक्षा च मे च मे च च मे तपस्तपो मे च च मे तपः मे तपस्तपो मे मे तपश्च तपो मे मे तपश्च तपश्च तपश्च तपश्च मे मे च तपश्च तपश्च मे च मे मे च मर दर दर् मे च छर्तो हो मर दर मे मरदश्चर हृदुश्च चरुतुरु हृदुश्च मे मे चरुतुरु हृदुश्च मे च मे मे च च मे व्रतं व्रतं मे च व्रतं च चव्रतं व्रतं च मे मे चव्रतं व्रतं च मे च मे मे च चमे होरात्रयो रहोरात्रयो ओर्मे चचमे होरात्रयोः मेहोरात्रयो रहोरात्रयो ओर्मे मे रात्रयोर्वृष्ट्या वृष्ट्या होरात्रयो ओर् मे मे होरात्रयोर्वृष्ट्या अहोरात्रयोर्वृष्ट्या वृष्ट्या होरात्रयोरहोरात्रयो ओर्वृष्ट्या बृहद्रधन्दरे बृहद्रधन्दरे वृष्ट्या होरात्रयो रहोरात्रयोर्वृष्ट्या बृहद्रधन्धरे अहोरात्रयोरित्याह रात्रयोः वृष्ट्या बृहद्रधन्धरे बृहद्रधन्धरे वृष्ट्या वृष्ट्या बृहद्रधन्तरे च च बृहद्रधन्तरे वृष्ट्या वृष्ट्या बृहद्रधन्तरे च बृहद्रधन्तरे च च बृहद्रधन्तरे बृहद्रधन्तरे च मे मे च बृहद्रधन्तरे बृहद्रधन्तरे च बृहद्रथन्तरे यदि बृहद् रथन्तरे च मे मे च च मे यज्ञेन यज्ञेन मे च च मे यज्ञेन मे यज्ञेन यज्ञेन मे मे यज्ञेन कल्प्येदां कल्प्येदां यज्ञेन मे मे यज्ञेन कल्प्येदाम् यज्ञेन कल्पेदां कल्पेदा यज्ञेन यज्ञेन कल्पेतां कल्पेदामिति कल्प्येताम्